श्रीहरये नमः अत त्रयोविंशोऽध्यायः श्रीशुक उवाच अत तस्मात् परत त्रयोदश लक्षयो जनान्तरतो तद्विष्णोः परमं पदमभिवतन्ति यत्र महाभागवतो ध्रुव अग्निनेन्द्रेण प्रजापतीना कश्यपेन धर्मेण च समकालयुग्भिः स बहुमानं इदानीमपिकल्पजीविनामाजीव्यं क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णितः स ज्योतिर्गणानां ग्रहनक्षत्रादीनाम् अनिमिषेन अव्यक् भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्बईश्वरेण विहितः शश्वत् अवभासते यता मेडीस्तम्भ आक्रमणवसव संयोजिदास्त्रिभिस्त्रिभिः स वैनैर्यतास्तानं मण्डलानि चरन्त्येवं भगणाग्रहाधयन् एतस्मिन्नन्तर्भगिर्योगेन कालच्चक्र अयोजिता ध्रुवमेव अवलम्ब्य वायुना उदीर्यमाणा आकल्पान्तं परिशङ्क्रमन्ति नभसि यथा मेघाश्येनाथयो वायुवसा कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्घणा प्रकृति पुरुषसंयोगानुगृहीताः कर्मनिर्मितघतयो भुवि न पधन्ति केचनैतज्ज्योतिरनीकम् शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणाय मनुवर्णयन्ति यस्य पुत्रः चाग्रे अवाक्सिरस कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरज्ञे इन्द्रो धर्म इति पुच्छमूले धाता विधाता चकट्यां सप्तर्श्य तस्य दक्षिणावर्ते उदगना दक्षिण पश्वे उपकल्पय दक्षिणा तो संवे यहाँ कुंडलाभोगवेश पार्श्योरूरप्यवयव वा तम संख्या ृष्ठे धजभीति आकाशगंगा चोधरता पुनर्वसु पुष्य दक्षिणवामो शून्यो आद्रश्लेशे सक्षिणवा पश्चिमो पाद अभिजि उत्तराषाढ़ दक्षिणवामयोर्नासिकयोर्यथासङ्ख्यं श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठमूलं च दक्षिणवामयोः कर्णयोर्महादीनि अष्टनक्षत्राणि दक्षिणायनानि वामपार्श्व वङ्ग्रिषु योजित तथैव मृगशीर्ष दीन्युदगयनानि दक्षिण पार्श्ववङ्घ्रिषु प्रातिलोम्येन प्रयुञ्जित सदभिषा ज्येष्ठे स्कन्धयोर् दक्षिणवामयोर्न्यसेत् उत्तराहनावगस्तीम् अदराहनौ यमो मुकेषु शाङ्घारः शनैश्चरवुपस्ते बृहस्पति खगुतिवक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्याम् उसनास्तनयो अश्विनो बुधः प्राणाप्राणयो राहुर्गलेखेतव सर्वाङ्गे शुरोमसो सर्वे तारा गणाः एतदूहैव भगवतो विष्णो सर्वदेवतामयं रूपमकरहः सन्ध्यायां प्रयतो वाक्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनाय अनिमीषां पतये महापुरुषायाभिधीमहीतिं ग्रहर्षतारामयम् आदिदैविकं पापापहं मन्त्रकृतां त्रिकालम् नमस्यतः स्मरतो भातृकालं नश्येतत्कालजमासु पापम् इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्ते शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द सद्गुरुनाथ महाराज के जय